चाणक्यनीति अध्यार्धनाश्यम मनस्तापम गृह दुश्चरिता वंचनम चापम च मतिमा प्रकाशन ध्रगेशु विद्या आहारे व्यवहारे च त्यक्तलज्जसुखी भवेत् सन्तोषामृततृप्तानां यत् सुखम् शान्दिरेव च न च तद्धनलुब्धानां मिदश्चेस्तद्धावताम् सन्तोषस्त्रिषु कर्तव्यस्वदारे ो जने धने त्रिषु जपदानयो विप्रयोर जपदानयोः विप्रयोर्विप्रवह्नोश्च दम्पत्योस्वामि भृत्ययोः अन्तरेण न गन्तव्यम् हलस्य वृषभस्य च पादाभ्याम् न स्पृशेदग्निम् गुरुं ब्राह्मणमेव च नैव गां न च न वृद्धं तथा शकटं पञ्चहस्तेन दशहस्तेन वाजिनं गजं हस्तसहस्रेण देशत्यागेन दुर्जनम् हस्ती अंगुशमात्रेण वाजी हस्तेन ताड़्य शृंगीगुहस् खड़गहस्तेन दुर्जन तुष्योजने मयूरा खनगर्जि साधव खला पर अनुलोमेन बलिनं प्रतिलोमेन दुर्जनम् आत्मतुल्यबलं शत्रुं विनयेन बलेन वा बाहुवीर्यं बलं राज्ञां ब्रह्मणो ब्रह्मविद्बली रूपयौवनमाधुर्यं स्त्रीणां बलमनुत्तमम् नात्यन्तम् सरलाय भाव्यम् गत्वा पश्य वनस्थलीम् चिद्यन्ते सरलास्तत्र कूब्जास्तिष्ठन्ति पादपाः यत्रोदकम् तत्र वसन्ति हंसास्तथैव शुष्कम् परिवर्जयन्ति न हंसतुल्येन नरेण भाव्यम् पुनस्त्यजन्तः पुनराश्रयन्ते उपार्जितानाम् वित्तानाम् त्याग एव हि रक्षणम् तडागोदरसंस्थानाम् परीवाह इवाम्भसाम् यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः यस्यार्थाः स पुमाल्लोके यस्यार्था स च पण्डितः स्वर्गस्थितानामिष जीवलोके चत्वारि चिह्नानि वसन्धिदेहे दानप्रसङ्गो मथुरा च वाणी देवार्चनं अत्यन्तकोपकटुका च वाणी दरिद्रता च स्वजनेषु वैरम् नीचप्रसङ्गकुलहीनसेवा चिह्नानि देहे नरकस्थितानाम् गम्यते यदि मृगेन्द्रमन्दिरं लभ्यते करिकपालमौक्तिकम् जम्बुकालयगते च प्राप्यते वत्सपुच्छकरचर्मखण्डनम् सुनः वव्यर्थं जीवितं विद्यया विना न गुह्यगोपने शक्तं न च दंशनिवारणे वाचां शौचं च मनसस् शौचमिन्द्रियनिग्रहः सर्वभूतदयाशौच मेदच्चौचं परार्धिनाम् पुष्पे गन्धं पयसिं कृदम् इक्षौ गुडं तथा देहे पश्यात्मानं विवेकतः Om